अथैकविंशः सर्गः स पुनः पतिताम् दृष्ट्वा पुनः उवाच व्यक्तया वाचा तामनर्थार्थमागता मयात् त्विदानीम् शूरास्ते राक्षसाः पिशिताशनाः त्वत्प्रियार्थम् विनिर्दिष्टाः किमर्थम् रुद्यते पुनः भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः हन्यमाना न हन्यन्ते न न कुर्युर्वचो मम किमेतच्छ्रोतुमिच्छामि कारणम् यत्कृते पुनः हा नाथेत्यपि नर्दन्ति सर्पवच्चेष्टसेक्षितौ अनाथवद्विलपसि किम् नु नाथे मयि स्थिते उत्तिष्ठोत्तिष्ठ मामैवम् वैक्लव्यम् त्यज्यतामिति इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता विमृज्यनयने सास्रेखरम् भ्रातरमब्रवीत् अस्मीदानीमहम् प्राप्ता हतः श्रवणनासिका शोणितौघपरिक्लिन्ना त्वया च परि सान्त्विता प्रेषिताश्च त्वया शूराराक्षसास्ते चतुर्दशा निहन्तुम् राघवम् घोरम् ते सामर्षा रामेण सामर्शाः शूलपट्टिशपाणयः समरे निहताः सर्वे सायकैर्मभेदिभिः तान् भूमौ पतिताम् दृष्ट्वा क्षणेनैव महाजवान् रामस्य च महत्कर्म महां स्त्रासो भवन् मम सास्मि समुद्विग्ना विषण्णा च निशाचरा शरणम् त्वाम् पुनः प्राप्ता सर्वतोभयदर्शिनी विषादनक्राध्युषिते परित्रासोर्मिमालिनी किम् माम् मग्नाम् विपुले शोकसागरे एते च निहता भूमौ रामेण निशितैः शरैः ये पदवीम् प्राप्ता राक्षसाः पिशिताशनाः मयिते यद्यनुक्रोशो यदि रक्षस्सु च रामेण यदि शक्तिस्ते तेजो वास्ति दण्डकारण्यनिलयम् जहिराक्षसकण्टकम् यदि रामममित्रघ्नम् न त्वमद्यबधिष्यसि तव चैवाग्रतः प्राणाम् स््यक्ष्यामि निरपत्रपा बुद्ध्याहमनुपश्यामि न त्वम् रामस्य प्रतिमुखे शक्तः अपयाहि जनस्थाना त्वरितः जहित्वं समरे मूढान् यथा तु कुलपांसना मानुषौ तौ न शक्नोषि हन्तुम् वै रामलक्ष्मणौ निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्विहा रामतेजोऽभिभूतो हि त्वम् क्षिप्रम् विनशिष्यसि स रामो दशरथात्मजः भ्राता चास्य महावीर्यो येन चास्मि विरूपिता एवम् विलप्य बहुशो राक्षसी प्रदरोदरी भ्रातुः समीपे शोकार्ता नष्टसञ्ज्ञा कराभ्या मुदरं हत्वा रुरोदभृशदुःखिता इत्यादृशे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अर्य कांडे एक सर्ग